एकोनचत्वारिंशदधिकशततमोऽध्यायः वैशम्पायन उवाच श्रुत्वा पाण्डुसुतान् वीरान् बलोद्रिक्तान्महौजसः धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः तत आहूय मन्त्रज्ञम् राजशास्त्रार्थवित्तमम् कणिकम् मन्त्रिणाम् श्रेष्ठम् धृतराष्ट्रोऽब्रवीद्वच धृतराष्ट्रौ वाच पांडवानित्यं पाण्डवानित्यम् तेभ्योऽसूये द्विजोत्तम तत्र मे निश्चिततमम् सन्धिविग्रहकारणम् कणिकत्वम् ममाचक्ष्व करिष्ये वचनम् तव वैशम्पायनौ सप्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमा उवाच वचनम् तीक्ष्णम् राजशास्त्रार्धदर्शनम् शृणुराजन्निदम् तत्र प्रोच्यमानम् मया नघ न मेभ्यसूयाकर्तव्या श्रुत्वैतत्कुरु सत्तम नित्यमुद्यतदण्डस्यान्नित्यम् विवृतपौरुषः अच्छिद्रश्छिद्रदर्शी स्यात्परेषाम् विवरानुगः नित्यमुद्यतदण्डाद्धिभृशमुद्विजते जनः तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत् नास्यच्छिद्रम् परः पश्येच्छिद्रेण परमन्वियात् गूहेत् कूर्म इवाङ्गानि रक्ष्येद्विवरमात्मनः ना, इवा ना उपक्रम्य कदाचन कंटको ह्य दुश्छिन्न आस्वन चि वधमे प्रशंसा शत्रुणमपकारिणा सुवीर्ण सुविक्रांत सुयुद्ध सुपलायिता आपद्यापदे चुत न विचारे नज्ञेरीपुस्तात दुर्बल कथंशन अल्पोऽप्यग्निर्वनम् कृत्स्नम् दहत्याश्रय संश्रयात् अन्धः स्यात् अन्धवेलायाम् बाधिर्यमपि चाश्रयेत् कुर्यात्तृणमयम् चापम् शयितमृगशायिकाम् सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुम् वशे स्थितम् दया न तस्मिन्कर्तव्या शरणागत इत्युत निरुद्विग्नो हि भवति न हताज्जायते भयम् हन्यादमित्रम् दानेन तथा पूर्वापकारिणम् हन्यात् त्रीण्पञ्चसप्तेति परपक्षस्य सर्वशः मूलमेवादितश्छिन्द्यात् परपक्षस्य नित्यशः ततः सहायांस्तत्पक्षान् सर्वांश्च तदनन्तरम् छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हता कथम् नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ एकाग्रस्यादविवृतो नित्यम् विवरदर्शक नित्यं, विवर नित्यं सपत्नेषु नित्यो समाचरेत् अज्ञाधानेन यज्ञेन काषायेण जटाजिनैः लोकान्श्वासयुदावृक अंकुशारणे आनाम्य पक्वं शाखा पक्व पक्व प्रशात फलायो लोकेंसा विपच्चिता वहेदिस्कंधेन यल से पर्य ततः प्रत्यागते काले भिन्द्याद्घटमि वास्मनि अमित्रो न विमोक्तव्यः कृपणम् बह्व पिब्रुवन् कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम् हन्यादमित्रम् तथा दानेन वा पुनः तथैव भेददण्डाभ्याम् सर्वोपायैः प्रशातयेत् धृतराष्ट्रौ कथम् सांत्वेन दानेन भेदैर्दण्डेन वा पुनः अमित्रः शक्यते हन्तुम् तन्मे ब्रूहि यथा तथम् कणिक उवाच शृणुराजन्यथा वृत्तम् वने निवसतः पुरा जम्बुकस्य महाराजनीतिशास्त्रार्थदर्शिनः अथ कश्चित्कृतप्रज्ञशृगालस्वार्थपण्डितः सखिभिर्न्यवसत् सार्धम् व्याघ्राखुव्रुकबभ्रुभिः ते पश्यन् विपिने तस्मिन् बलिनम् मृगयूथपम् अशक्ताग्रहणे तस्य ततो मन्त्रममन्त्रयन् जम्बुक उवाच असकृत्यदितो ह्येष हन्तुम् व्याघ्रवने त्वया शक्यते मूषिकोऽस्य शयानस्य चरणौ भक्षय त्वयम् यथैनम् भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततो वै भक्षयिष्यामः सर्वे मुदितमानसा जम्बुकस्य तु तद्वाक्यम् तथा चक्रुः समाहिता मूषिका भक्षितैः पादैर्मृगम् व्याघ्रोऽवधीत्तता दृष्ट्वैवाचेष्टमानम् तु भूमौ मृगकलेवरम् स्नात्वा गच्छत भद्रम् वो रक्षामीत्याह जम्बुक शृगालवचनात्तेऽपि गताः सर्वे नदीम् ततः सचिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुक अथा जगामपूर्वम् तु स्नात्वा व्याघ्रो महाबलः ददर्श जम्बुकम् चैव चिन्ताकुलितमानसम् व्याघ्रौ वाच किम् शोचसि महाप्राज्ञत्वम् नो बुद्धिमताम् वरः अशित्वा पिशितान्यद्य विहरिष्यामहे वयम् जम्बुकौ वाच शृणु महाबाहो यद्वाक्यं मूषिकोऽब्रवीत् दिक्बलम् मृगराजस्य मयाध्यायम् मृगो मद्बाबलमाश्रि तृप्तिम्य गति गर्जमान से तस्व्य रोचे